गणेशपुराणं क्रीडाखण्डम् अध्यायं तर्टि फैव् क उवाच ततस्तुष्टपाशपाणिर्दृष्ट्वा क्लेशं तथा तयोः आविराशिन्महातेजा दशबाहुविनायकः किरीडं कुण्डले मालामङ्गदे कडिसूत्रकं बिभ्र सर्पोपवीतं च सिंहारूढोऽग्निसन्निभः पश्यत स्म परामूर्तिं कोडिसूर्यसमप्रभां तुष्ट्वा तुरुभौ देवं नत्वा बद्धाञ्जली उभौ तावूचतुः विश्वस्य बीजं परमस्य पादा पादानानाविधानन्दकरस्वकानां निजार्चनेनादृतचेतसां त्वं विघ्नप्रहर्ता गुरुकार्यकर्ता परात्परस्त्वं परमार्थभूतो वेदान्तवेद्यो हृदयाधिगोऽपि सर्वश्रुतीनां च न गोचरोऽसि न वामयुद्धं निजदैवतं नपात्मयो निर्नहरो हरिश्च हरिः षडास्यो न सहस्रमूर्धा मायाविनस्तेन विदुत्स्वरूपं कथं न शक्यं परिनिश्चितुं तवानुकम्पामकी यदा स्यात् विभुञ्जदकर्म शुभाशुभं स्वं कायेन वाजा मनसा न मे जीवं mm -hmm. च मुक्तो नर उज्यदेशः त्वं भावतुष्टो विदधासि कामान्नाविधा कारतया किलानाम् संसृत्य कूपरविमुक्तिहेदुरदो विभुं त्वां शरणं प्रपद्ये गणेश उवाच तुष्ठोऽहं परया तपसा परमेण च अनया परया ब्राह्मणौ वृणोदां वरान् कुजन्म नाशकमिदं मम स्तोत्रं पठेत्तु यः त्रिसन्ध्यम् च त्रिवारं च सर्वान् कामान् अवाप्नुयात् षण्मासा जाय देवीद्यालक्ष्मीर्नित्यजपादपि पञ्चवारजपान्मत्यम् आयुरा क उवाच श्रुत्वा गणेशवाक्यं तावू च दुःपरमाधृतौ औरवस्य सुदोदेवशमीका नाम दशुभा मन्ताराय सुधा दत्तवेदशास्त्रार्थदर्शिने शौनकस्य च शिष्याय धौम्यपुत्राय धर्मिते उभौ प्रकशितौ मोहा दृष्ट्वा मार्गे भ्रुशुण्डिनम् स च मत्वा निजावज्ञां शशापरयारुषा तच्चापाद्वृक्षदां यादौ मन्दा रशमिकापि सा तयोश्च मातापितरौ शोचन्दौ भृशदुःखितौ आवां च देव सर्वेषां न गुरु कुरु कूजदां दूरी कुरु शीघ्रं गजानना गजानन उवाच असम्भाविवरं दास्ये कथं विप्रौ कथं वृथा करिष्ये भक्तवचनं तस्मात्तुष्ठो ब्रवेवरम् अद्य प्रभृतिं मंदारमूलं दास्यामि निश्चलः मृत्युलोके स्वर्गलोके मान्योऽयं च भविष्यति मन्दारमूलैर्मे मूर्तिं कृत्वा यः पूजये नरः शमीपत्रैश्च दूर्वाभिस्तृतयं दुर्लभं भुवि यतशमीमधिष्ठाय सर्वदाहं स्थिरो मुनि अयमेववरो दत्तो वृक्षयोरधि दुर्लभः क्याण न भ्रुशुंडी वचोन्य था दूर्वा भाव मंतावया भाव शीमद उभय सफलम दिचारण नाजर्न तत्पुण्यम नानातीर्थव्रतर दानैश्च नियमैश्चैव पुण्यं तत् प्राप्नुयान्नरः यस्यान् मम शमीपत्रैः पूजनेन द्विजोतमौ नाकं प्रिये धनकनकचयैर्नान्नैर्न ना वस्त्रैर्नानपुष्पैर्न च भलैश्च मणिगणैर्नैव मुक्ताफलैश्च यद्वच्च म्यादलनिचयकृधै पूजनैर्ब्राह्मणानां मन्दाराणां कुसुमनिचयैश्वकालमुनीन्द्रौ यस्य मीं प्रादरुद्धाय पाश्मे द्वन्देच च ससङ्कष्टं च रोगं च न विघ्नं न च बन्धनं प्राप्नोति मत्प्रसादेन दारान् पुत्रधनानि च पशूनन्यांश्च कामांश्च मुक्तिमन्द्रे मदाश्रयाम् इदमेव फलं प्रोक्तं मन्दारैरपि पूजने मन्दारमूर्तिपूजाभिरहं गृहगतो नालक्ष्मीर्न च विज्ञानि नापमृत्युर्न ना च ज्वरः नाप्नि चोरभयं तत्र कदाचिदपि जायते वेदवेदाङ्गविद्विप्रह क्षत्रियो विजये भवेद वैश्यस्तु वृद्धिमाप्नोति शूद्रसद्गतिमाप्नुयात् क उवाच यवमुक्त्वा स्थितो देवो मूले मन्दारके तदा शमीमूलेऽपि तस्थौ स देवदेवो विनायकः औरवोऽपि सपन्नीकस्तपस्तप्तुं स्थिरोऽभवद तस्य मूले तपस्तप्त्वा त्यक्त्वा देहं दिवङ्गतः शमी गर्भगदो दुःखदौरवो दृढयो गतः समी गर्भयिदिख्यादो जादोत्सौहव्यभुक्तदः अध एव शमी काष्ठं मध्नन्दीहाग्निहोत्रिणः सौनकोऽपि वच गजानन गजाननसमीरिदम् कृत्वा मन्दारमूलस्य मूर्तिं चारुगजाननीं मन्दारैश्च शमीपत्रैर्दूर्वाभिश्चार्चयन्मुदा ददौवरान् शौनकाय परितुष्टो गजाननः तद स्वमाश्रमं यातः सर्वदा पुपूजता गृत्समद उवाच तदारभ्य शमीतस्य श्या। गणेशस्य प्रिया भवद इति कथयामिते सर्वमाख्यातं पुनश्च कथयामि ते इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते शमीमन्दारप्रशंसानाम पञ्चत्रिंशोऽध्यायः Om oh.